प्रत्यग्निरुषसश्चे गीता नो बोधिविप्रः पदवीः कवीनाम् पृथुपाजादेभयद्भिः समिद्धो बद्वारातपरसो वह्निरावः प्रेद्वग्निर्वावृधे स्तो मे दुर्गेर्भिस्तो दृणाम् नभस्य ूर्वीर्लस्य सन्दृतश्च कानः सन्दूतवद्यो दृढता विलोके अथा यद्निर्माणोर्विक्ष्वा अपाङ्गर्भ मित्रऋते न मित्रो अग्निर्भवति यत्समिद्धो मित्रोः दामरूनो जातवेदा मित्रोऽध्वर्य ऋषिलोदमूना मित्रः सिन्धूनामुदपर्वदानाम् पादिप्रियम् ऋपोऽग्रम् पदम् वेत्पादिजह्वश्चरणम् सूर्यस्य पातिलाभा सप्तशीर्षाणमग्निः पाति देवानामुपमानमृष्वः ऋगश्चक्रजीड्यम् चारुणामविश्वानि देवो भजुनानि विद्वानि सहस्रजर्म घृतवत्पदम् वेस्तदिदग्निरक्षत्य प्रयुच्छन् आयोमग्निर्घृतमन्तमस्थात् पृथक्प्रगानमुसन्तमुषानः ीद्यानस्वचर्विश्वः पावकः पुनः पुनर्वातर्वानव्यसीकः सद्यो जातकोषधीभिर्ववक्षे यदी वर्धन् दिक्प्रस्वो घृतेन आपयिव प्रवदा शुम्भमाना मुरुष्यदग्निः पित्रोरुपस्थे मुदुष्टुतः सविधा मित्रा अग्निरेड्यो मातरिश्वादूतपक्षद्यथायदेवान् उदस्तम्भी सभिधानाकविश्वर्भवन् उत्तमो रोचनानाम्परे गुहासंतं हव्यम् समेधे मग्ने पुरुदम् संसलिङ्गोर्षश्वत्तमम् भवमानाय साध स्यान्नः सूनुस्तन यो बियामाग्ने साते सुमतिर्भूत्वस्मेरवो मनना वच्यमानादे वद्रीचीम् नयत देवयम् ताः दक्षिणावार्वाजिनी प्राच्ये देहविर्भरम् त्यग् घृताजी का रोदी अवृणाजायमानभूतप्ररिक्था धनुप्रायज्ञो जिवश्चेदग्ने महिला पृथिव्या वच्यन्ताम् ते वह्ना यः सप्त जिह्वा योश्चत्वा पृथिवी यिज्ञा सोऽनिहोतारम् वादयन्ते यदि विशो मानूषीर्दे वजन्ती प्रजस्वती रीला ते सुप्रवर्तिः महान्सधस्ते ध्रुवानिषत्तोबाहीने हर्ये स पत्नीः अजरे अवृक्ते सभर्दुघे गुरुघायस्य धेनु व्रताते अग्ने महतो महायक्रत्वारोदसी आतरदन्थ म् दूतो अभवो जायमानस्त्वम् नेता वृषभचर्षणीना घृतस्य वाग्येशिना योग्याभिर्घृतस्वबालोहीता दुरिधिष्वा अथावहदेवान् देवविश्वान् स्वधरागृह्णीः जातवेदः स्थिताते रुचयन्तरोगाकुषो गी भातेनो भासि अपो यदग्नवुसधग्वलेषु होदम् मन्त्रस्य बलयम् ददेवाः गुरौ वादे अन्तरिक्षेपदन्ति वादे लोचने सन्ति देवाः उमावा वाजे सुगवासोयचत्रायेमिरे रच्यो अग्ने अश्वाः ैः रग्ने सरथम् या ह्यर्वाङ्नारथम् वा विभो ह्य स्वाह पत्नीवतस्त्रिंशतम् त्रींश्च देवानाश्वथमावाहमादय स्वा सहोदायस्य रोदसीजि दुर्वीयज्ञम् यज्ञमभिवृदे गृणीतः राजी अध्वरे कश्चतुमेके ऋतावीरुतजातस्य सत्ये मग्ने पुनरुदम् संस लिङ्गा शश्वतमम् भवमानाय साध स्यान्नः सू नस्तन यो विवाग्ने सादेशु पतिर्भूत्वस्मे भाद्रावादयमनाः ओ हरिः आरुस्य पृष्ठस्य दासे रामातरा विविशुः सप्तवाणीः परीक्षितापितलासञ्च रेते प्रस्राते दीर्घमायुप्रयक्षे जिवक्षासो धेन वो विष्णो अस्वा देवी रातस्थो मधु मद्वहन्ती द्रुतस्यत्वा दि। सदा आसीमरोह सुयमाभवन्ति पतिस्थिखित्वा राजिविद्रजीना प्रणीलपृष्ठो अधसस्य दासे स्ता वासयत्वरुधप्रादीकः महित्वाष्ट्रमूर्जयन्तीरजर्यंश्च भूयमानम् वहतो वहन्ति व्यङ्गेऽभिर्दृज्यदानः सधस्तने कामिवरोदसी जानन्ति विष्णो अरुषस्य सेव मुदव्रध्रस्य सहसनेरणन्ति योरुचः सुरुचोरोच मालाजिलायेषाम् कन्या माही नागीः कुतो पितृभ्याम् प्रपिदानुघोषम् महो महद्भ्यामनयन्तसूषम् मुक्षा हयत्रपरिधानमक्तोरणस्वम् धामजऋतुरुमपक्ष अध्वर्यभिः पञ्चभिः सप्तभिः प्राज्ञम् रक्षन्ते निहितम् पदम् मे प्राञ्चो मदन्त्युक्षणो अधुर्या देवा देवानामनिर्व्रतागुः दैव्या होदारात् प्रसमाञ्जिरञ्जे सप्तवृक्षास स्वधया मदन्ति ऋतम् संसन्त ऋतमिन्तपदम् व्रदपादीध्याना शायन्ते महे अत्याय पूर्वेष्णे चित्तय रश्मयः सुयामाः देवाहोतम् मन्त्रतरश्चिगीत्वाहो देवान् रोदसीयेहवक्षि वृक्षप्रायतोत्रविदस्वजस्रुगेतव कुषसो रेवदूषुः दोजीदग्ने महिना पृथिव्याः कृतम् चिरे रसम् महे दशस्य युरामग्नेपुहृदम् संस लिङ्गो शश्वत्तमम् भवमानाय साध स्यान्नः सूनस्तना यो विदावाग्नेशा तेषु मतिर्भू त्वस्मे हञ्जन्दित्वा मध्वरे देवयन्तो वनस्पते मधूना दिव्येन यदूर्ध्वस्त्यष्टाद्रविरेकधत्ताद्यध्वाक्षयो मातुरस्या उपस्थे श्रयमानः पुरस्ताद्ब्रह्म वन्वानो अजनम् सुवीरम् भारे अस्मदमजिम्बाधमानगुच्छ्राय स्वमहते सौभागायुच्छाय स्ववनस्पते वर्ष्णन् पृथिव्या अधि सुमेति मीयमानो वच्चो बाधायज्ञवाराहसे ुवासाः परिवीता गात्समुः श्रेयान् भवति जायमानः अन्धीरासः कवयमुन्नयन्ति स्वाध्यो ओमनसादे वयन्ताः जातो जायते सुतिहत्मे अह्नांसवर्या वितथे वर्धमानः पुनन्ति धीराः अपसो मनीषादेवयाविप्रभुदीयर्ति वाचम् यान् गोनगोः देवयन्तो गो निमिर् वनस्पते स्वधीतिर्वादक्ष ते देवादस्वरावस्तस्ति वांसः प्रजावादस्मे दीदि दिशन्तु रत्नम् ये ऋक्नासो अधिक्ष विनिमितासो यतश्रूजा ्यम् तु वार्यम् देवत्राक्षेत्रसाधसः आदित्या रुद्रावसा वस्तुनीचाद्य वा क्षामा पृथिवी अन्तरिक्षम् स चोडसो जिज्ञमा वन्तु देवाभूध्वम् कृण्वन्त्वध्वरस्य केतुम् हंसायैवस्त्रनिशो यथा नाशुक्रावसानाः स्वरवो नागुः उन्नीयमानानाः कविः परस्ताः देवा देवानामपि यन्ति पाथाः शृङ्गाराणीवेच्छृङ्गिणाम् सन्दादृश्रे चलावन्तः स्वराव पृथिव्या माहद्भिर्वाभिगमे शोषमाना अस्माकवन्तु प्रथमाध्येषु वनस्पते सतवल्सोऽपि रोहसहस्र वल्सा विभयम् रूहेम यन्वा <mí> मयाम् स्वधीतिस्तेज मानः प्रणिनाय महते सौभागाय सखायस्त्वा महे देवम् मत्ता सभूतये आपान्नपातम् सुभगम् सुधीदितिम् सुप्रदूर्तिममेहसम् गायमानो बला त्वम् यन्मातृरज गन्नपः दत्ते अग्ने प्रमृषे निवर्तनम् यद्दूरे सन्निहा भावः अधिदृष्टम् वक्षिता दैव सुमना असि न प्राण्येयन्ति पर्यण्य आसते येषाम् सख्ये असि श्रुतः जीवाम् समधिस्रुधः स स्व जीवति सश्च ताः अन्यीमविन्दन्निचिरासो सिंहमेव श्रुतम् स सृवाम् समिवत्मनाग्निमिच्छाधिरोहीतम् ऐरम् अयम् मातरिष्वा परावतो देवेभ्यो मथितम् परि तम् पामर्ता अगृभ्रतदेवेभ्योऽहम्यवाहन विश्वान्यज्ञाङ्गाभिपासि मानुषतभक्तत्वा यविष्ट्य तद्भद्रम् मानुषत दम् स कापाका न समास ते समिद्धमपि सर्वरे आजूहोता स्वध्वरम् शीलम् पावकसोऽजिषम् आसुम् धूतमजिलम् रत्नवीर्यम् सृष्टिदेवम् स पर्यत त्रीणि शता त्रिसहस्राण्यग्निम् त्री त्रंसश्च देवानव चासपर्यन् औक्षन् घटैरस्त्रीणम् बलिहिरस्मादिद्धोतारण्यासाधयन्त त्वामग्नेमनीषिणः सम्राजम् चर्षणीनाम् देवम् मत्ता स इन्धते समध्वरे त्वाम् यज्ञेष्मृत्युजमग्नेहोतारमे ले गोपालतस्य देदिः स्वेदमे स घायस्ते तदा सति सविधा जातमेधसे सोऽग्ने धत्ते सुवीर्यम् स पुष्यति स केतुरद्भराणामग्निर्देवेऽभिरागमत् अञ्जानः सप्तहोद्रेभिर्हविष्माते होत्रे पूर्यम् वचोग्नये भरता बृहत् दिवाम् ज्योतीम् शिबिभ्रदेन मेधसे ज्ञम् वर्धन्तु नो गिरो यथो जाजातमुख्याः महे वाजा जद्रवीनायदसतः अर्दे यदिष्टो अध्वरे देवान्दे देवा भजते योता मन्त्रोऽपि राजस्य तिसृधाः स नः पावकदेजयज्ञम तस्मे सुवीर्यम् भवा स्तोत्रभ्यो अन्तमस्वस्थये म् त्वाभिप्रा विपञ्जवो या गृवांसः समिन्धते अव्यवाहमर्त्यम् सहो वृधम् अग्निर्होता पुरोहितोभरस्य वितर्षणिः सेदयज्ञमानुषके स व्यवालमर्त्य उसिग्दूतश्च नोहितः आज्ञया अग्निधिया स चेतधिकेतुर्यज्ञस्य भूर्वः अर्थाङ्स्य धरणि अग्निम् सोऽनम् सरश्रुतम् सरसौ जातवेदसम् वह्निम् देवागन्वत आभ्यः पुरजेता विषामग्निर्मानुषीणाम् तूर्णीरथस्व क्वान्विश्वा अभियुगः कलुर्देवानामनुक्तः अग्न्यस्तुमिश्रावस्तवः अभिप्रयाम् जिवाः सादा स्वास्मोधिमत्याः शयम्बावकसो जिषः परिविश्वारिषुधीताग्नेरस्य ममन्माभिः विप्रासो जातमे दसः अर्गे विश्वानिवार्यवाजेषु निषामहे त्वे देवासये रीरे इन्द्राग्नीतम् सुतम् गीर्भिर्णभोवरेण्यम् तस्य पादम् धिजेषिता इन्द्राग्नीज ऋतुः सजा यज्ञो जीगातिचेतनः अजापादमिमम् सुतम् इन्द्रमग्निम् क विच्छता यज्ञस्य जूत्यावृणे ता सोमस्येहद्रम् पता दोषा वृत्रह नाहुमे सजित्वा नापराजिता इन्द्राग्नीवाह जाता मा प्रवाहमर्चम् युक्तिनो नेधाविदो शरिताराः इन्द्राग्नेन मतिम् पुरो दासपत्नीरधूनुतम् सागमे येन कर्मणा इन्द्राग्ने अपसत्व प्रयम्सि हेतयाः पथ्या आ नु इन्द्राग्नेतविषाणी वाम् सधस्तानि युवो रक्तूर्यम् हितम् इन्द्राग्नेरोचनादिवः परिवाजेषु भूषतः दद्वाञ्जेति प्रवीर्यम् भोः देवाजाग्नजे परिजिष्टमर्चास्मै गमद्देवेऽभिरासनो जिष्ठो बलिहिरासदत् ऋतावायस्य रोदासीदक्षंस चन्दभूतयाः अभिषमन्दस्तमीरते तम् सरिष्यन्तो वासे स विप्रजेषां स यज्ञा नाम धारिणः आग्नि तम्बो दुपस्य ददाता यो वनीतामघम् स नः शर्मा यीतये निर्यच्छतु सन्तमा यतो न प्रश्नमद्वसो दिविक्षितिभ्यो अप्स्वा धृक्वा न अग्निविन्धदेहोदारम् विश्वजम् दिशा उदरो ब्रह्मन्नमिषमुक्थेषु देवभूतामह सन्नः सो च मरुद्धृतोग्नेः सहस्रसातामह नूनोदास्वसहस्रभत्तो गमत्पुष्टिमद्वसु जुहदग्ने सुीर्घम् वरलिष्टमनुभक्षितम् आवोता मन्त्र विदथान्यस्तात् सद्यो यज्वा कपितमस्ववेधाः विद्युद्रदस्सहसः पुत्रो अग्निः सोऽष्के स पृथिव्याम् वायोः अश्रेत् अयामि ते न मा भुक्तिम् जृगस्वरुता सहस्वः क्षिविदुषो निषत्सि मध्या बर्हिरूतये यजत्र द्रवदान्तवृषधा भाजयन्ती अर्गे वागस्य पथ्याभिरच्च यत्सी वञ्चन्ती पूर्णम् हगद्भिरबन्धुरेवतश्च तर्दुरोणे निश्चभ्यम् वरुणः स हस्वोऽग्ने विश्वे मरुतः सुम् न वर्तन् यच्छोदिना सह तस्वत्रतिष्ठा अभिक्षिते प्रथयान्सोर्जो भयन्ते अद्य रीमाहि कामा मुक्ता न हस्ता नमासोपसज्य यथेष्ठे न मनसा यक्षि देवानश्रेधता मन्माना विप्रो अग्ने त्वद्धिपुत्रदसो विपूर्वेर्देवस्वयम् जूतयो विवादाः त्वम् देहि सहसृणम् रजम् न सत्यमग्ने तुभ्यम् रक्षकविक्रतो यायीमायमत्तासो अध्वरे अगम्ब त्वम् विश्वस्य सुरथस्य बोधि सर्वम् तदग्ने अमृतस्वदेह पिपाच स वृथनासोऽशु चानो बाधस्व दृशो रक्षसो अमीवाः सुसनमानो बृहदः सन्मानि स्यामग्नेरहम् सुभवस्य प्रणीतौ त्वनन्वो अस्या वृषसो ज्योष्टौ त्वम् सूरमुदि देवोऽधि गोपाः जन्मे मे अग्ने द्वन्वा सुजाता त्वम् ऋचक्षा ेषि जप ऋषयाच्यं हत्रिधीनो राजभुसिजो जविष्ठ अशालो अग्ने वृषभो दीदेहि दी पुरो विश्वासौभगासञ्जिगीवान् यज्ञस्य नेता प्रथमस्य पाजो जातवेदो बृहतः सुप्रणीते अथर्मदलितः पुरुणि देवादिनः सु मेधाः रथो न तस्मि रभिवक्षिवाजमघ्ने त्वम् रोदासीनः सुमेघे रमीभजमृगभिन्म वाजानघ्ने त्वम् रोदासीनः सुदोघे एमे भद्देव सुो मा नो मत्तस्य दुर्मदिः परिष्ठात् इलामग्ने पुरुदं संस लिङ्गमम् यममानाय स्यान्नः सो नस्तन यो बिजावाग्नेशा ते सुमतिर्भू त्वस्मे अयमग्निस्विर्यस्येषे महः सौभागस्य राजयीशे स्वपत्यस्य गोमतयीशे वृत्तहतानाम् इमम् न नो मृतस्तश्च प्रावृधम् अभिये सन्ति वृथा नासु दूढ्यो विश्वाः शत्रू माधभुः स त्वन्नो राजशीषे हिमेध्वो अग्ने सुवीर्यस्य तु विद्यम् न वरुषष्ठस्य प्रजावादो नमीवस्य सुष्मिनाः देवेषु यतसंसभूत नृणा मा नो अजेमा वीरता मा गोतायैतस्वक्रमादिदे भद्रेषाम् स्याग्रीधि सिवाजस्य सुभगप्रजापतोऽग्ने बृहतो हध्वरे सम् राजा भूय सादृजमजो भुधातु विद्युम् नय सस्वता समिध्यमानः प्रथमानुसम् मासमक्तुभिरज्यते विश्ववारः सोऽशो धृतनिर्निः पावकः सु यज्ञो अग्निर्य यथाय देवान् यथा गोत्रमग्ने पृथिव्यायथादि गोजादवेदस्ति विद्वान् देवानेन हविषायक्षि देवान्मनुष्यज्ञम् प्रति रेम मज्ज श्रीन्यायोंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ताभिर्देवानामो यक्षि विद्वानथा भजमानायसंयोः अग्निम् सुदीतिम् सुदृशम् गृणन्तो नमस्यामस्तेऽ्यम् जातवेदः त्वाम् दूतमरतिम्हो यवाहम् देवा कृण्वन् अमृतस्य जगचो दूर्वो अग्नेयीयाञ्जिता च सत्ता स्वधया च शम्भुः स्यानु धर्म प्रयाजाचि विश्वरम् देववीतौ भवानो अग्ने सुमनागुपे तौ सखेव सख्ये पितरेव साधु गृहदृहो भिक्षितयोजनानाम् प्रति प्रतिचेरहरातरादीः तपोष्वग्ने अन्तराम् अमित्रान्तपाशम् समररुढः परस्य सर्वो वसौ चिकितान अजित्तान्विते तिष्ठन्तामजरा अजासाः विघ्नेनाग्न इच्छवा घृतेन जुहोमी हव्यम् तरसेपलाय या बलिशे ब्रह्मणा वन्दमानजिमान् धियम् स दशेयाय देवी पुञ्छोजिरा सहदस्पुत्रस्तुतो बृहद्भयः स समानेषु धेहि देवदग्ने विश्वामित्रेषु संयोन्मन्मृज्वाते तन्वा अम्भूरि कृत्वा ऋधिरत्नम् सुसनितर्धनानाम् सखे सोदर्दू रोणे सुभगस्य देवः सृप्राकलस्रा दधिषेव पुंषि अग्निम् होतारम् प्रवीणे सनो कृत्सम् कविम् विश्वविदममूलम् सोऽक्षद्देवता तारिनीयान् राजेवाजायवनते मघानि ते अग्नेहविष्मादीमि यर्म्यच्छा सद्युम्ना रानीम् घृताचीम् प्रदक्षिणि देवतादिमुनः सम्प्रातिभिर्वसुभिर्जज्ञमश्रे स तेजीयसामनसात्मोत उतशिक्षस्वपत्यस्य शिक्षोः अग्ने राजो नृतामस्य प्रभूतौ भूजामा ते सुष्ठुतयश्चमस्वाः भूरे निहित्यधिरे अनीकाग्ने देवस्य गजोजनासह सावह देवम् जविष्टसो यदिव्यम् जासि जयत्वा होतारमनजन् विजेधे निषादयन्तो यथाय देवाः स त्वन्न अग्ने विजेय भोज्यति स्रवांसि अग्निमुडदामश्विना दधिक्रा देवह्निरुैः सज्योतिडो न शृण्वन्तु देवासौसो अध्वरम् वा वसानाः अग्नेत्रिदेवाजिदात्रिषधस्ता तिस्रस्ते दिह्वारुदजातपूर्वीः तिस्रभूते दे तन्वो देववातास्ताभिन्नः पाहि गिरो अप्रायुच्छन् अग्ने भूरे नितवजातवेदो देवस्वधा गो मृतस्य नाम याश्च बाजाबाजिनाम् विश्वमिन्दत्वे पूर्वीः सन् दधुः आग्निर्नेता भगाजिवक्षितीनाम् देवीनाम् देवरुदुपा हृता वा सहृत्रः सनजो विश्वमेताः परिषद्विस्वादे दुरिता गृहन्तम् अग्निवृषसम् च देवीम् बृहस्पतिम् स च देवम् अश्विना अश्विनाः मित्रावूना भगम् च वसून् रुद्रामादित्या इहो मे इमो यज्ञममृतेषुधे हीमाहं व्याजातवेदो जुषस्व शोकानामग्नेमेदसो घृतस्य होदप्रासाहारप्रथमो निषद्य धृतवन्तः पावकते स्तोकाश्चोदन्ति मेधाः स्वधर्मम् देववीत श्रेष्ठम् मोधे हि वार्यम् तुघ्यम् श्लोकाघृतश्चितोऽभिप्राय सन्त्य श्रेष्ठः स मिध्यसे यज्ञस्य प्रापिता भव दौभ्यम् चोदन्त्यधो सचैवस्तोकासो अग्ने मे दासो भृतस्य कविशस्तो बृहताभानुनागा हव्याजूरस्वमेधिर ओतिष्ठन्ते वध्यतो मेधमुद्भृतम् प्रतेभयम् ददामहे चोदन्ति देवसोस्तोकाधिप्रचिप्रतिदान् देवसोभिः अयम् सो अग्निर्यन् स मविन्द्र सुतम् दधे जघरेवावसानः सहस्रणम्बाजम्यन्न सत्यम् स समान्सादः अग्नेयत्ते दिविवर्च पृथिव्याव्योषधीर्ष्वप्साय ये ये जत्र येनान्तरिक्षमुर्वा तदन्ध त्रेणस्य भानुरन्नक्षाः अग्ने जिगो अर्नमच्छा जिगास्यच्छा देवामो जिगेधिष्ठचरे परस्तात्सूर्गस्य याश्चापस्तादुपतिष्ठन्तापाः पुरीष्यासो अग्नजः प्रामनेभिः स जोषसः जुषन्ताम् यज्ञमद्रुरो न भीवायुषो महीः मग्ने पुरुदम् संसलिङ्गो श्वत्तमम् भवमानाय साध स्यान्नः सूनस्तन यो बिजावाग्नेसाते सुमतिर्भोवत्पस्मे निर्मासितः सुधीतः सधस्तेजुवा कविरध्वरश्च प्रणेता योग्यजरोवरेष्वत्रा दधे अमृतम् जातवेदाः मम तिष्ठाम् भारतदेवदग्निम् देवस्र वा देव वातः सुरक्षम् आग्नेपि पश्य विहताभिराजेषाम् नो नेता भवतादनुद्योन्क्षिमः पूर्वंसी मयी जनान् स्यादम् मादृप्रियम् अग्निंस्तु हि नैव पातम् देवस्र भो योजना नाम सद्वसी रित्वा दधेवरा पृथिव्या इलायास्पते सु दिनत्वे अह्नाम् दृढद्वत्याम् मानूढापजायाम् सरस्वत्यामेवदग्ने दिदीः लिलामग्ने पुरदं संसलिङ्गः शश्वत्तमम् भवामानाय साध स्यान्नः सू नस्तराय बिजावाग्ने अग्नेत स्वकृत न अभिमातीरपास्य जुष्टरन्नरातीचोधा यज्ञवारसे अग्न इध्यसे भीतिहोवत्रो भवत्यः जुषूनो वध्वरम् अग्नेद्युम्नेन जागृवे सहसून बाहुत येदम् बर्हिः स दो मम अग्ने विश्वेभिरग्निभिर्देवे धर्मह यागिराः जयज्ञेषु यगो चाजवाः अग्ने दादाशुषेरयम् वीरवन्तम् परीरसम् शशीहिरः सुमदाः अग्ने दिवःसूनुरसि प्रचेतास्तना पृथिव्यापुलविश्वमेदाः पृथग्देवा जिहय जाजिगित्वः अग्निः स नो दिवीर्यानि विद्वान् स नो दिवाजापमृता भून् स नो देवाहवरुक्षो अग्निर्द्यावापृथिवी विश्वजन्ने आवादि देवी अमृते अमूरः क्षयन्वाजे पुरश्चन्द्रो नमोभिः अग्नयङ्गश्च दाजुरो दुरोणे सुता वा गो यज्ञमिहोपजातम् अमर्थम् दासोमपेयाय देव अग्नेः अपा समिध्यते दुरोणे नित्यः सो नो सहसो जात वेदः सालिमहयामानभूति ऐश्व न साग्निम् निजाय्या हविष्मन्तो अनुषत्यम् स्वर्विदम् सुदानुम् देवम् रथिरम् वा सूजवो वा गीर्भिरण् कूसिगासो हवामहे स्वभ्यमग्निमव देह वामहे वैश्वानरम् वा नरिस्वानमुक्त्यम् रहज निमनो लो देवता प्राम् श्रोता रमदिम् रघुष्यतम् अश्व न क्रन्दञ्जलेभिः समिध्य देवैः स्वनरकूसिगेभिर्जुगे युगे स नो अग् स्वस्य दधा दुरत्र मृदयशुजाग्रीविः अयम् दुवाजास्तवेशेभिरग्रज शुभे संविष्टा प्रणदे न ृरुक्षो मरुतो विश्ववेदसप्तवेपयन्ति पर्वताभ्याः अग्निः श्रियो मरुतो विश्वकृष्टयः द्वेटमुग्रमवाजीमहे भयम् ते स्वारिनो रुद्रिया वर्षणम् निजः सिंहानहेणक्रतमः रातम् रागम् गणम् गणम् सुस्तिभिरग्नेर्भावम् मरुतामो जीमहे गृहदस्मासो अनभ्ररादसो गन्तारो यज्ञम् विदधेराः अग्निरस्मि जन्म न जातवेदाघृतम् मे चक्षूरमृतम् आसन् अर्कस्त्रिधा दूरजसोऽभिमानोऽजस्रो घर्मो हविरस्मि नाम त्रिभिः पवित्रै रघुपोध्या अर्गम् मृदा महिरणम् प्रजानन् वरुषिष्ठम् वत्र मरुगः स्वधाभिरादिद्या वा पृथिवी पर्यपश्यत् स तथा रघुत्समक्षीयमानम् विपस्थितम् पितरम् मक्कानाम् मेलिम् वदनन्तम् पित्रुपस्थेतम् रोदसी विदृतम् सत्यवाचम् रो वाजा अमिद्य वो हविष्मन्तो घृता देवाञ्जी गादिसम् नयुः गीले अग्निम्बिभश्चितम् गिरा यज्ञस्य साधनम् सृष्टिवानम् धितावानम् अग्ने सकेम ते पयम् यमम् देवस्य दे वाजिनः अतिद्वेषाम् सितरेम ध्व्यमानोऽध्वरे एग्निः पावकयेभ्यः सोजिष्के सप्तमी महे रथुपाजा अपत्यो हृदनिक्स्वाहुतः अग्निर्यज्ञस्य हव्यवान् तम् समाधो यतस्रोज इच्छाधिया यज्ञवन्तः ज़िया आचक्रुरग्निमोदये ोता देवो अवत्यः पुरस्तादेति मायया विकसानि प्रचोदयन् वाजी वाजेषु धीयते ध्वरेषु प्रणीयते विप्रो यज्ञस्य साधनः धिया चक्रे वरेण्यो भूतानाम् गर्भमाददेक्षस्य नित्वा दधेवरेण्यम् दक्षस्येला सहस्कृत अग्ने सुैमुशिरम् अग्निङ्गन्तरमृतस्य योगे मनुषाः निर्प्रापादेः समिन्धरे ऊर्जोनपातमध्वरे देहि दिवाम् समुपद्यमि अग्निमे लेखविक्रातुम् ीरेण्यो नमस्य स्थिरस्तमाम् शिररिषदः समर्भिरुध्यते मृषा वृषो अग्निः समिध्यते सो नदे भवनः तम् हविष्णम् दैलते वृषणन्ता वयम् वृषम् वृषाणः तः स वेधी यावसो पुरोला अग्नेभगतस्तुभ्यम् बाघा परिष्कृतः मञ्जूढस्वयवृष्ट्या अग्नेभिः पूरोला समाहूतम् तिरो अन्ध्यम् सदा सूरवस्य ध्वरे हिनः माध्यम् दिने सवदः पुरोलास विह कवेजुषस्व ग्ने यः वस्य तप भागधे जम् न प्रवीणन्ति विदथे रुधिराः अग्ने त्रीजे सपनेहिकालीण प्रोल्लासम् सहसु नमाहूतम् अथा देवेश्वरम् विपन्यजाधारत्र वन्दमृतेषु जाग्रीविम् अग्ने वृथानाहूतिम् पुरोल्लासम् जातवेदः जुलस्वतिरोम् अस्ति तमधिमन्तनमस्ति प्रजनानम् कृतम् एताम् विस्पत्नीभराग्निम् मन्धामपूर्व अरण्योर्निहीतो जातवे जागर्भाजवसुधीतो गर्भिणीषु जिवेदीभयेड्यो जागृपद्भिर्हमिष्पद्भिर्मनुष्येऽभिरग्निः भराचित्त्वान् सद्यः प्रणीताभृहणञ्जान अरुडस्तु बोरुस तस्य वा जलिलायास्पुत्रो भजुमे दिनिष्ठ जिलायास्त्वपते भयम् नाभा पृथिव्या अधि जात मे दोनिधि वह्यग्ने हव्यायवोढवे मन्थदानरः कविमद्वा यन्तम् प्रचेदसमृतम् सुप्रतीकम् यज्ञस्य केतुम् प्रथमम् पुनस्तादग्नम् न रोचनयता सुसेवम् यदि मन्थम् दिवाहुभिर्विरोचते सौरवाद्यरुढो वनेष्व चित्रो न यावन्नश्रिहारेव तात्परे वृणक्त्यस्म नस्त्रनादहन् जातो अग्निरो वचते च के तानो भाजे विप्रः कविसस्तः सुः यम् देवासकीर्जम् विश्वमिदम् हंजपाहमदधरध्वरेषु सीताहोदस्वभो लोके च कृत्वा सदया यज्ञम् सुकृतस्य योनौ देवावीदेवान्घविषायजास्यग्ने बृहद्दिरमानेव यो धाः कृणोत धूमम् मृषनम् सखायो श्रेधन्तयुत न वा जमच्छ अयमग्निः प्रेतनाशात्सु वि रोजेन देवासो असहन्तदस्यून् अयम् तेजोनिर्त्वियोजतो जातो अरोजथाः तञ्जानन्नसीदा नो वर्धजागिराः करो न पादुच्यते गर्भा सु न रांसो भवति यद् विजायते मातलि सर्गो अभवत् सरेमनि सुनिर्मथा निर्मादितस्य ग्नेश्वराकेणुदेवान् देवजते यजा अनीजगन्नमसम्मत्यासो श्रेवाणम् तरणिम्भम् दशस्वदारो अग्रिपस्समीतिः पुमांसञ्जातमभि संरभन्ते सप्तहो दासनकादरोचत बादुरुपस्थेयदसोदूधरी अनिमेषति सुरनो दिवेदीपेयत दिवे सूरस्य जठ राजजायता अमित्रायुधो मरुतामिव प्रजा प्रथमजा ब्रह्म नो विश्वविद्विदुः जुम्नवद्ब्रह्म कुशिकासयरीरजकाज गौतमे अग्निम् समेधिरे यद्यत्वा प्रजति यज्ञे अस्मिन्भोतश्च घित्व व्रेणी महेह ध्रुवमायाद्ध्रुवमुदामिष्टात्पन् विद्वा उपायायि सोमम् भद्राम् नो अपि वादयमलाः ओम्